अथ चतुश्चत्वारिंशोऽध्यायः वैशम्पायनुवाच ततो देवाः स गन्धर्वाः समादायार्घ्यमुत्तमं शक्रस्य मतमाज्ञाय प्रार्थमानर्चुरञ्जसा पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजं प्रवेशयामासुरथो पुरन्दरनिवेशनम् एवं सम्पूजितो जिष्णुरुवासभवने पितुः उपशिक्षन्महास्त्राणि स संहाराणि पाण्डवः शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम् अशनिश्च महानादामेघबर्हिणलक्षणाः गृहीतास्त्रस्तु कौन्तेयो भ्रातृंसस्मारपाण्डवः पुरन्दरनियोगाच्च पञ्चाब्दानवसत्सुखी ततः शक्रो ब्रवीत्वार्थं कृतास्त्रं काल आगते नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि वादित्रं देवविहितं नृलोके यन्न विद्यते तदर्जयस्वकौन्तेय श्रेयो वैते भविष्यति सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः स तेन सह सङ्गम्य रे पार्थो निरामयः गीतवादित्रनृत्यानि भूय एवादिदेशः तथापि नालभचर्म तपस्वी द्यूतकारितम् दुःशासनवधामर्षि शकुनेः च ततस्तेनातुलां प्रीतिमुपागम्य क्वचित् क्वचित् गन्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान् सशिक्षितो नृत्यगुणाननेकान् वादित्रगीतार्थगुणांश्च सर्वान् न शर्मलेभे परवीरहन्ता भ्रातॄन् स्मरन्मातरं चैव कुन्तीम् इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्वारिंशोऽध्यायः